श्रीशारदाष्टोत्तरशतनाम ॐ ह्रीं श्रीशारदादेव्यै नमः ॐ ह्रीं सर्वमङ्गलाय मात्रे नमः ॐ ह्रीं परमाप्रकृत्यै मात्रे नमः ॐ ह्रीं चित्स्वरूपिण्यै मात्रे नमः ीं सर्वान्तर्यामिन्यै मात्र्यै नमः ॐ ह्रीं जगन्मातृस्वरूपाम्बायै नमः ॐ ह्रीं विश्वकल्याणार्थम् अवतीर्णाम्बायै नमः ॐ ह्रीं धर्मस्थापनार्थमागताम्बायै नमः ्रीं अहंशून्याम्बायै नमः ॐ ह्रीं लक्ष्मीरूपाम्बायै नमः ॐ ह्रीं जयरामभाटे नन्दिन्यै मात्रे नमः ॐ ह्रीं रामचन्द्रदोहित्रय मात्रे नमः ॐ ह्रीं श्यामासुन्दरी क्रोडशोभिताम्बायै नमः ह्रीं मधुरस्वभावाम्बायै नमः ॐ ह्रीं पवित्रजीवनाम्बायै नमः ॐ ह्रीं चिन्मयरूपधारिण्यै मात्रय नमः ॐ ह्रीं आजन्मदिव्यभावस्थिताम्बायै नमः ॐ ह्रीं आबाल्यदेवपूजिकाम्बायै नमः ओ जनकने सुखदाई मात्रे मे वर्ष परणीतांबा नम ओंम सहधर्मिण्य नम ओं रीं पतिसवापरायणाबा नम ओं रीं जगद्धात्रेण्य नम ीं दयामयै मात्रे नमः ॐ ह्रीं दुर्भिक्षक्लिष्टसेविकाम्बायै नमः ॐ ह्रीं अन्नपूर्णास्वरूपाम्बायै नमः ॐ ह्रीं दीनभवागताम्बायै नमः ॐ ह्रीं जितेन्द्रियाम्बायै नमः ्रीं सदाचाररूपिण्यै मात्रे नमः ॐ ह्रीं दैन्यनाशिन्यै मात्रे नमः अप्रमेयाम्बायै नमः ॐ ह्रीं दशमः विद्यारूपिण्यै नमः ॐ ह्रीं तारिण्यय नमः ॐ रीं सर्वाभीष्टपूरिकाम्बाय ॐ रीं पतिसेवार्थं दक्षिणेश्वरागताम्बायै नमः ॐ रं रा मात्रे नमः ्रीं रामकृष्णशरणागताम्बायै नमः ॐ ह्रीं अवगुण्ठिताम्बायै नमः ॐ ह्रीं लज्जापटावृत ॐ ह्रीं महाशक्तिरूपिण्यै मात्रये नमः ॐ ह्रीं कालीरूपधारिण्यै मात्रय नमः ्रीं षोडशीरूपेण पूजिताम्बायै नमः ॐ ह्रीं रामकृष्णैन सरस्वती इति कथिताम्बायै नमः ॐ ह्रीं दस्युजनानुकम्पिन्यै मात्रे नमः ॐ ह्रीं पतितोद्धारार्थमादिष्टाम्बायै नमः ्रीं सेवैव तपः इति वादिन्यम्बायै नमः ॐ ह्रीं रं परमं तपः इति वादिन्यम्बायै नमः ह्रीं तपः पूर्णजीवनाम्बायै नमः ॐ ह्रीं रामकृष्णोत्तरसाधिकाम्बायै नमः ॐ ह्रीं रामकृष्णपूजाप्रवर्तिकाम्बायै नमः ॐ ह्रीं रामकृष्णात्मैक्यगताम्बायै नमः ॐ ह्रीं वृन्दावनेतपश्चारिण्यै मात्रे नमः ॐ ह्रीं कृष्णभावभाविताम्बायै नमः ्रीं सीताराधारूपाम्बायै नमः ॐ ह्रीं महाभावमयै मात्रे नमः ॐ ह्रीं रामकृष्णाभेदभानिन्य मात्रे नमः ॐ ह्रीं दीक्षार्थं रामकृष्णादयै नमः ॐ ह्रीं दीक्षादानविमलीकृताम्बाय नमः ्रीं स्पर्शमणिस्वरूपिण्यै मात्रय नमयि श्रेष्ठाम्बायै नमः ॐ ह्रीं करुणागनमूर्तिधारिण्यै मात्रे नमः ॐ ह्रीं दृष्टजगन्नाथाम्बायै नमः ॐ ह्रीं सर्वतीर्थस्वरूपिण्यै मात्रये नमः ्रीं रामकृष्णलीलापोषिकाम्बायै नमः ॐ ह्रीं गिरीशाय अहं सत्यं माते इति कथिताम्बः ॐ ह्रीं गङ्गाप्रीतिकारण्याय मात्रय ॐ ह्रीं पञ्चतपःकृताम्बायै नमः ॐ ह्रीं बालगोपालवीक्षिताम्बायै नमः ्रीं अद्वयतत्त्वरूपाम्बायै नमः ॐ ह्रीं सर्वबीजमन्त्ररूपाम्बायै नमः ॐ ह्रीं साक्षान्मोक्षदायन्यै मात्रे नमः ॐ ह्रीं दुर्गास्वरूपिण्यै मां विवेकोचिताम्बायै नमः ्रीं रामकृष्णसङ्घैश्वर्यै मात्रे नमः ॐ ह्रीं दीनशरणाम्बायै नमः ॐ ह्रीं नवीनादर्शस्थापिन्यै मात्रे नमः ॐ ह्रीं भक्तो जातिवर्णरहितः इति कतीर्ताम्बायै नमः ्रीं बहुरूपेण भुंशे एवं वालिन्यै मात्रे नमः ॐ ह्रीं सर्वाकाराम्बायै नमः ॐ ह्रीं मायातीताम्बायै नमः ॐ ह्रीं साक्षात्त्यागमूर्त्यै नमः ॐ ह्रीं ब्रह्मतेजोदृप्तायै मात्रे नमः ॐ ह्रीं पूर्णाम्बायै नमः ॐ ह्रीं विश्वोद्बोधिकाम्बायै नमः ॐ ह्रीं श्रद्धारूपाम्बायै नमः ॐ ह्रीं विश्वनाथभावस्थिताम्बायै नमः ॐ ह्रीं रामकृष्णमय जीवनाम्बायै नमः ्रीं चिरसिमन्तिन्यै नमः ॐ ह्रीं पवित्रतास्वरूपिण्यै मात्रे नमः ॐ ह्रीं मातृभावप्रचारार्थम् आदिष्टाम्बायै नमः ॐ ह्रीं शरदामजादिसमदर्शिन्यै मात्रे नमः ॐ ह्रीं निःसंशयम् अहं भगवती इत्युक्तवत्यै मात्रे नमः ॐ ह्रीं जीवति मां कोऽपि न ज्ञास्यति इति वादिन्यम्बायै नमः ॐ ह्रीं महामायास्वरूपिण्यै मात्रे नमः ॐ ह्रीं मत्सेवातपसौधिक इति वादिन्यम्बायै नमः ीं सहजसाधनमार्गप्रदर्शिकाम्बायै नमः ॐ ह्रीं सर्वदेवदेवीश्वरूपिण्यै मात्रे नमः ॐ ह्रीं सौम्यरूपाम्बायै नमः ॐ ह्रीं गुरुमातृरूपाम्बायै नमः कस्यापि दोषो न द्रष्टव्यः इति वादिन्यम् ॐ ह्रीं जगत्प्रेमी भव इत्युपदेशिन्यम् वायै नमः ॐ ह्रीं सर्वेभ्यः स्वस्तिभूयात् इति वादिन्यम् वायै नमः ॐ ह्रीं रामकृष्णचितिलीनाम्बायै नमः रामकृष्णाश्चतिलीनाम्बायै नमः ॐ तत्सतो